यदि दत्तम् यदि हुतम् विद्यते यदिनस्तपह नस्तपः तेन तिष्ठन्तु नगरे पाण्डवाः शरदांशतम् ततस्ते धृतराष्ट्रस्य भीष्मस्य च महात्मनः अन्येषाम् च तदर्हाणाम् चक्रुःपादाभिवन्दनम् कृत्वा तु कुशलप्रश्नम् सर्वेण नगरेण च न्यविशन्ताथ पेश्मानि धृतराष्ट्रस्य शासनात् दुर्योधनस्य महिषी काशीराजसुता तदा धृतराष्ट्रस्य पुत्राणां वधूभिः सहिता तदा पाञ्चालीं प्रतिजग्राह द्रौपदीं श्रीमिवापरां पूजयामास पूजार्हां शचीदेवीमिवागतां ववन्दे तत्र माधवीकृष्णयासः माधवी कृष्णया सह आशिषश्च